अथ द्विशततमाऽध्यायः धृतराष्ट्र उवाच अहमप्येवमेवैतचिकीर्षामि यथा युवां विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ततस्तेषां गुणानेव कीर्तयामि विशेषतः नावबुद्ध्येत विदुरो ममाभिप्रायमिङ्गितैः यच्च त्वं मन्यसे प्राप्तं तद्ब्रवीः सुयोधन राधेयमन्यसे यच्च प्राप्तकालं वदाशु मे दुर्योधन उवाच अद्य तान् कुशलैर्विप्रैः कुन्तीपुत्रान् भेदयामो माद्रीपुत्रौ च पाण्डवौ अथवा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः परित्यजेद्यथा राजा कुन्तीपुत्रम् युधिष्ठिरम् अथ तत्रैव वा निवासं रोचयन्तु ते इहैषाम् दोषवद्वासं वर्णयन्तु पृथक् पृथक् ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः